मुद्गलपुराणं कण्डं वन् वक्रतुण्डचरितम् अध्यायं 48 एय्ट् ऋचीकगृहस्थाश्रमवर्णनं श्रीगणेशाय नमः शौनक उवाच त्वया प्रकथितं सुदवक्रतुण्डस्य धीमता मत्सरासुरनाशाख्यं चरित्रं सर्वसिद्धिदं सस्थितपुत्र तत्क्षेत्रस्थानं ब्रूहि महात्मनः आदौ तस्यावतारस्य तिथिमुत्सवर्धिनीं सूत उवाच प्राचीतिगन्धसंस्थानेस्तापितोऽस्सौ महर्षिभिः देवैश्च गणसंयुक्तैर्महोत्सवपरायणैः भाद्रशुक्लचतुर्ध्यां वै प्रकटो भूत्स देवराट वक्रतुण्ठप्रसन्नात्मा सातिथि परमामता मध्याह्नसमये तस्य पूजनं सुखदायकम् अपारसिद्धितं प्रोक्तमाद्यन्ते स्वल्पसिद्धितं द्वीपे दीपे च खण्डेषु स्वस्वपूर्वदिगन्धरे प्रदिमा वक्रतुण्डस्य स्थापिता मुनिभिः पुरा तत्र क्षेत्रं दशयोजनमात्रकं चतुरस्रं महापुण्यं परम् मध्ये स संस्थितो देवो वक्रतुण्डो वा गणेश्वरः वामाङ्गे सिद्धिराद्यास बुद्धिर्वे दक्षिणाङ्गके सम्मुखे सिंहरूपं च वाहनं तस्य शोभनम् अष्टदिक्षुस्थितास्तस्य सिद्धयोष्टौ च शौनक गणा अष्टौ तथाज्ञे याश्चतुर्दिक्षु शिवो विष्णो रविचक्रेर्भक्रियुक्तास्थिता इमे ब्रह्माद्या देवदा सर्वास्तत्पश्चात्पूर्वतस्थिताः संस्थिता प्रभो क्षेत्राणि काशिकादीनि पश्चिमे संस्थितानि च वसिष्ठाद्या मुनिश्रेष्ठा संस्थितास्तत्र चोत्तरे शेषाद्या नागभूपाश्च गन्धर्वा पर्वतास्तथा सेद्धा अप्सरस विद्याध्र किजादीषु ये श्रेष्ठा संस्थिता न वक्त शक्य स्वामी माया वर्षशरपी सेवा वक्र तोंड लालसाधारिण प्रभो हृष्टाः प्रमुदितास्तत्र परस्परहितेरताः वक्रतुण्डचरित्राणि कथयन्ति परस्परं हृष्टरोमाण एवं ते भवन्तो भावदः समुद्रे स्नानकर्तारस्तत्र तीर्थानि चक्रिरे स्वस्वनाम्नाङ्गिदान्येव स्वल्पदेहधरा मुने गणेशतीर्थं तत्रैव वक्रतुण्डस्य हर्षदं कृतकृत्या भवन्त्यत्र स्नानमात्रेण जन्तवः यात्रामात्रेण तत्रैव जन ईप्सितमाप्नुयाद क्षेत्रे मरणदो मरणो जंतुर्ब्रहूत दूरे स्थि नरो यस् प्रकोदि चेत तुक्लगत सा मुक्तिर्भवति शाश्वती वक्रतुंड ये भक्ता यने ब्रह्मभूता सदेहस्त पावना दर्शनान्नणां सङ्क्षेपेण मया तस्य स्थानं ते कथितं मुनि विस्तरेण न शेषोऽपिब्रह्म विष्णुमहेश्वराः वेदा समृदय सर्वे स्कन्दो योगिन एवच च वर्षैस्ते कथितुं न क्षमः कदा मुद्गलेन यथा प्रोक्तं दक्षाग्रे तन्मया तथा कथितं भावयुक्तेन किमन्यच्छ्रोतुमिच्छसि शौनक उवाच सुदसुदमहाभाग धन्यं क्षेत्रसमुद्भवं माहात्म्यं श्रुतमस्माभिर् ब्रह्मसायुज्यदायकम् अधुना ब्रूहिधर्मज्ञ यद्दक्षेण च संश्रुतं मुद्गलात् तेन कथितमग्रे यत्कीदृशं च तद् सुत उवाच क्षत्रस्य चरितं दक्षो हर्षसमन्वितः उवाच मुद्गलं विप्रं भक्तिनम्रात्मकन्धरः दक्ष उवाच वद विस्तराद वक्र तोंडस्व साक्षा कथं शंकर देख मुद्गल उवाच शृणु दक्ष कथयामि कथया पुरातन गणेश गुणयुक्त महाद्भुत याज्ञवल्क्यमुनीन्द्रेण कथितं कौशिकाय कौशिकाययद तदखं सम्प्रवक्ष्यामि ब्राह्मणत्वप्रकाशकम् भार्गवो मुनि मुख्योयऋचीकस्तपसि स्थिदफ बहुकाले व्यधिक्रान्ते तपसा जीर्णदां ययौ क्रुद्धत्वं परिपूर्णं च प्राप्तं तस्य महात्मनः वनेषु मृगयूथानि स पश्यन् विस्मितो भवत मृगीसंसक्तचित्तश्च मृगस्वाधीनदां गतः पुत्रपौत्रादिसंयुक्तो बभ्रामवनगोचरः ये कैकाश्रिदचित्तास्ते क्रीडां चक्रुः परस्परं दृष्ट्वा भृगुवरस्तत्र सकामः सम्बभूवः उवाच स्वयमेवेदं धन्यं गार्हस्थ्यमेव च युद्धं विचार्य विप्रस्तु ययौ गाधिं नराधिपम् सदृष्ट्वा सहसोद्धाय मुनिं गाधिरपूजयत भुक्त्वा याचत तत्कन्यां भार्यार्थं नृपसत्तमं राजा वृद्धं समालोक्य तं जगादमहामुनिं श्यामकर्णयुधाश्वानां सहस्रं देहि मे मुने शुल्कं ग्राह्यं मया चैवं निश्चयप्राकृतो मुने अत स्वां प्रार्थये विप्र पश्चात्कन्यां ददामि ते श्रुत्वा मुनिर्गतसद्यो वरुणस्य गृहं प्रति गृहीत्वाश्वसहस्रं च तस्मात् प्रययौ ददौ राजा कन्यां ददौ तस्मै भार्गवाय महात्मने विधिवद्भयभेदः स तां प्रगृह्य ययौवनम् राजपत्नी सुतां प्राहत्वदीयं भाग्यमीदृश्यम् अस्माभिः किं प्रकर्तव्यं वनवासं सुदे कुरु विलप्य द्रव्यवस्त्रादीन् दत्त्वा पुत्रीकरे तदा स्वगेहं सा जगामापि वने प्रस्थाप्यता मुने राजपुत्री महाभागा ऋचीकं प्राप्य सेवा मनलसत्वेन कृत्वा तद्भक्तितत्परा तां दृष्ट्वा शीलसंयुक्तां प्रसन्नो मुनिसत्तमः तदर्थं तपसास्वेन निर्ममे नगरं वने चादुर्वर्ण्यसमयुक्तं हेमरत्नविभूषितं दासी दासादिसंयुक्तं नानाविभवदं परं स्वयं तपःप्रभावेण यौवनं रूपमादधे रेमेतया यथा न्यायं देवेन्द्रेण समप्रभो निःस्पृहो भोगरागेषु दृष्ट्वा स्त्रीसुखमल्पकं मानसे धारयामासव्यर्थं पत्नी भवं सुखम् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते ऋचीकगृहस्थाश्रमवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ओम्